अथाष्टमोऽध्यायः वैशम्पायन उवाच अथापरो भीमबलश्रिया ज्वलन्नुपाययो सिंहविलास विक्रमः खजाम् च दर्वीञ्च करेण धारयन्नसि कालाङ्गमकोशमव्रणम् ससूदरूपः परमेण वर्चसारविर्यथा लोकमिमम् प्रकाशयन् सकृष्टवासागिरिराजसारवांस्तम् अस्य राजम् समुपेत्य तस्थिवान् तम् प्रेक्ष्य राजारमयन्नुपागतम् ततो ब्रवीजानपदान् समागतान् सिंहोन्नतांसोऽयमतीव रूपवान् प्रदृश्यते को नु नुव अदृष्टपूर्वः पुरुषोरविर्यथा वितर्कयन्नास्य लभामि निश्चयम् तथास्य चित्तम् ह्यपि संवितर्कयन्नर्षभस्यास्य नयामि तत्त्वतः दृष्टैव चैनम् विचारयाम्यहं गंधरवराजो गन्धर्वराजो यदि वा पुरन्दरः जानीत कोऽयम् मम दर्शने स्थितो यदीप्सितम् दल्लभदाञ्चमाचिरम् विराटवाक्येन च तेन चोदिता नरा विराटस्य सुशीघ्रगामिनः उपेत्य कौन्तेयमथा ब्रुवंस्तदा यथा स वदाताच्युतानुजम् ततो विराटम् समुपेत्य पाण्डवस्त्वदीनरूपम् वचनम् महामनाः उवाच सूदोऽस्मि नरेन्द्र वल्लवो भजस्व माम् व्यञ्जनकारमुत्तमम् विराट उवाच न सूदताम् वल्लव श्रद्धदामिते सहस्रनेत्रप्रतिमो विराजसे श्रिया च विक्रमेण च प्रभासे त्वम् ध्रुवरो भीम उवाच नरेन्द्रसूदपरिचारकोऽस्मि ते जानामि सूपान् प्रथमम् च पुराभवन् युधिष्ठिरेणापि नृपेण सर्वशः बलेन तुल्यश्च न विद्यते मया नि युद्धशीरश्च सदैव पार्थिव गजैश्च सिंहैश्च समे सदा करिष्यामि तवानघप्रियम्